मार्कण्डेयपुराणम् अध्यायं 118 अण्ड् एय्टीन् करन्धमचरितवर्णनं मार्कण्डेय उवाच ततःसनृपतिर्गत्वा गोमतीं पापनाशिनीं तत्र तुष्टावनीयतो भूत्वा देवं पुरन्दरम् तप्यमानस्तपश्चोग्रं यद्वायमानसः तुष्टावप्रयदशक्रमपत्यार्थं महीपतिः तस्य स्तोत्रेण तपसा भक्त्या चापि सुरेश्वरः तुतोष भगवानिन्द्रप्राहचैनं महामुने अनेन तपसा भक्त्या स्तोत्रेणोच्चारितेन च परितुष्टोऽस्मि ते भूपव्रियतां भवदावरः राजोवाच अपुत्रस्य सुदोमेस्तु सर्वशस्त्रभृदाम्बरः सदा तैश्वर्यो। धर्मकृद्धर्मवित्कृती मार्कण्डेय उवाच तथेति चोक्तशक्रेण राजाप्राप्तमनोरथः प्रजाः पालयितुम्भूप आजगाम निजं पुरं तत्रास्य कुर्वतो यज्ञं सम्यक् पालयतः प्रजाः अजा सुतो विप्र तदा शक्रप्रसादः तस्य चक्रे बलाश्व इति भूपतिः अस्त्रग्राममशीर्षं सुतं पितर्युपरते विप्रसोद्धिराज्ये नृपः भूवि सबलाश्वशमे भुवि सर्वहि करम चापयामासारग्रहणपूर्वक सर्वूमिपानाज पालयास चिल नरेन्द्रास्ते दयादा न चाभ्युद्धाय सततं तचास्मै प्रदधुकरान् व्युद्धिदा स्वेषु राष्ट्रेषु न सन्तोषपरास्ततः तस्य नरेन्द्रस्य जगृहुस्ते नराधिपाः स गृहीत्वा राज्यं पृथिवीशो तस् विरोधो तउस्वरे भूपैर्विरोधो बहुत ससाधन सुमीर ससाधनधनाधुस्तमी पालं पुरे त्र नरे पुरोधे नेनाथ कुमीपति स्व कोशोऽल्पदण्डश्च वैक्लव्यं परमं गदः अपश्यमानः शरणं सबलोद्विजसत्तम करौ मुखाग्रधः कृत्वा निशश्वा सार्थमानसः ततोऽस्य निर्जग्मुशदशो योधा ततः तदहक्षणेन तत्सर्वं नगरं तस्य भूपतेः व्याप्तमासीद् बलौकेन बलान्मुने अध सोदिबलौकेन महदातेन संवृतः निर्मध्य नगरात् तस्मात् तान्विजिज्ञे नराधिपः जित्वा च वशमानीय चकार करदान्पुनः महाभाग महाभाग्यो नरेश्वरः धुतयोः करयोर्जज्ञे यतस्तस्यारिदाहदम् बलं करन्धमस्तस्मात्सबलाश्वोऽभिधीयते स धर्मात्मा महात्मा च समैत्रैः सर्वजन्तुषु करन्धमो भवद्भूपस्त्रिषु लोकेषु विश्रुतः सम्प्रास्तस्य परामार्तिं ददावरिविनाशनं बलं धर्मेण चाक्षिप्तमभ्युपेत्यस्वयं नृपम् इति श्रीमार्कण्डेयपुराणे करन्दमचरितं नामाष्टादशाधिकशततमोऽध्यायः ओ